संहितापठम् तान्पूर्पया निविदाहुमहे वयं भगं मित्रमदितिं दक्षमश्रिधम् अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगामयस्करल् तान्पूर्पया निविदाहुमहे वयं भगं मित्रमदितिं दक्षमश्रिधम् अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगामयस्करपूर्पया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमश्रिधम् अर्यमणं वरुणं सोममश्विना सरस्वतीनः सुभगामयस्करल्